गर्गसंहिताखण्डम् टेन् अश्वमेधखण्डम् अध्यायम् फिफ्टि टु गर्ग उवाच समागतम् यज्ञभयम् विलोक्य श्रीचन्द्रहासो व्रज चन्द्रदासः सद्यो गृहीत्वा किल तस्य पत्रम् स वाचयामास तदैव हृष्टः तत्पत्रम् वाचयित्वाहमः भागवदो नृप अहो पश्यामि नेत्राभ्याम् पौत्रम् श्री परमात्मनः केन पुण्येन पूर्वेण कृष्णतुल्यम् यदुत्तमम् मया न दृष्ट श्रीकृष्णो माया मनुषविग्रहः सहितकार्ष्णिजेनाहम् तस्मात् गच्छामि द्वारकम् तत्र पश्यामि श्रीकृष्णम् बलम् प्रद्युम्नमेव ज उग्रसेन महाराजम् श्रीकृष्णेनापि पूजितम् इत्युक्त्वा निर्ययौ राजा ह्यनिरुद्धम् विलोकितम् गृहीत्वा चोपचापश्च गन्धपुष्पाक्षतादिकान् दिव्यवस्त्राणि रत्नानि गृहीत्वा तुरकम् च सः सफपुरजनैः सार्धं माला तिलकशोभितैः गीदवादित्रघोषैश्च पद्भ्यां राजा जगामः आगतं तं नृपं दृष्ट्वा नागरैः सखितं नृप अनिरुद्धो मुदा युक्तो मन्त्रिणं चेदमब्रवीद अनिरुद्ध उवाच कोयं राजा महामन्त्रिन् सर्वै पुरजनैः सह आगदो मिलनार्थम् वा तस्य वदस्वनः उद्धव उवाच नृपोऽयम् चन्द्रभासाख्यो केरलाधिपदे सुदः मृदयोर्मातृपित्रोश्च कुलिन्देनानुपालितः आबाल्यात् कृष्णचन्द्रस्य भक्तस्तेनाभिरक्षितः पृष्ठबुद्धे प्रधानस्य सुदाङ्ग्यः परिणीतवान् यस्मै कुन्तलको राजा राज्यं दत्त्वा वनं ययौ तस्याख्यानं द्वारकायं मया कृष्णमुखा यस्मै स्वदर्शनं दातुं श्रीकृष्णोऽत्रागमिष्यति उद्धवस्य वच श्रुत्वा विस्मितो गत्वा निरुद्धनिकटे चन्द्रः स्वजनायर्वृतः श्यामकर्णं ददौ प्रिदोधनानि बहुशस्तधा गजानामर्धलक्ष्यम् च रथानां लक्ष्यमेवज तुरगाणामेककोटिम् मुद्राणां हि सहस्रकम् गवयानां सहस्रम् च शिबिकानाम् सहस्रकम् धेनूनाम् दशलक्षम् च शिञ्जानामयुधम् ददा एककोटिम् सुवर्णानाम् द्रौप्याणाम् च च दुर्गुणम् लक्षमाभरणानाम् च माधवाय ददौ नृपः चन्द्रहास उवाच नमो निरुद्धाय सुरोत्तमाय श्रीकृष्णपौत्राय जनेश्वराय प्रद्युम्नपुत्राय यदुत्तमाय देवाय पूर्णाय नमः पराय इति भक्तवज प्रसन्नो मदनात्मजः संश्लाघ्य तस्मै प्रदीप्ताम् रत्नमालिकाम् चन्द्रहासस्तु राजेन्द्र राज्ये कृत्वा धुमन्त्रिणम् स्वपुराद्याद वै सार्धम् गन्तुम् चालम् मनोऽकरोद उषित्वा तत्पुरे सर्वैः एकरात्रम् यदुत्तमः प्रातःकाले ययु राजम् चन्द्रहासेन संयुधः जगामह्यग्रदस्तेभ्यो तुरपत्रशोभितः ततः सप्तवतीम् दृष्ट्वा तडम् तरङ्गैर् निघ्नन्दीम् दीर्घवेगाम् दुरत्ययाम् नौकाभिः संयुधम् दृष्ट्वा वीरप्रद्युम्ननन्दनः अक्षौहिणीशतयुधपारम् गन्तुम् मनो दधे स पूर्वम् गजमालुह्य सिम्बाध्यैः परिवेष्टितः नावम् त्यक्त्वा नृपश्रेष्ठप्रविवेशनदी जले प्रथमम् सलिलम् तस्याम् समलम् च बभूवः तद पङ्कद्रवा भूमिश्चित्रमेतत् बभूव हसन्तो यादव सर्वे विस्मयं परमम् ययुः अथ व्रजम् स्तु रङ्गस्तु स जगामशनैः शनैः नारायण सर्व यत्र मध्ये सिन्धुसमुद्रयोः पपौ तीर्थजलम् तत्र तु रगश्च दृशा दुरः ततस्तत्र ययुः सर्वे निरुद्धाध्यायदुत्तमाः धर्मद्वेषकरान्नीचान् ब्रेच्छाञ्जित्वा मृदाङ्गणे दृष्ट्वा तुरङ्गमम् तत्र स्नानम् चक्रुः सरोवरे इति श्रीगर्गसंहितायाम् हयमे दखण्डे नारायणः सरोगमनं नाम द्वि अध्यायम् फिफ्टि गर्ग उवाच पश्यन्नृपान् महावीरानुग्रसनतुरङ्गमः विचरन् भारते वर्षे देशानन्यान् जगामः एवम् विचरतस्तस्य हयस्य च विशाम् पदे आगतफाल्गुनो मांस सर्वेषाम् गृहदर्शिकः आगतम् फाल्गुनम् दृष्ट्वा सारुद्धस्तु शङ्गितः उवाच मन्त्रिप्रवरमुद्धवम् बुद्धिसप्तमम् अनिरुद्ध उवाच चैत्रे श्री यादवेन्द्रस्तु मन्त्रिन् यत्नम् करिष्यति वयम् तु किम् करिष्यामो दिवसा बहवो नहि भूमौ तुरङ्गकर्तारो नृपाके केवशेषिताः तेषाम् च वदनामानि मह्यम् शुश्रूषवे उद्धव उवाच न सन्धि गगने सन्धिवाहरे तस्माद्यदुपुरिं गच्छ स्वर्णद्वारां च द्वारकाम् इति तस्य वच श्रुत्वा ह्यनिरुद्धप्रकर्षितः तस्यापि वचनं राजन्नश्वाग्रे पुनरब्रवीद एवं तद्वाक्यमाकर्ण्य प्रययौ द्वारकाम् शीघ्रम् किष्किन्धाम् हनुमानिव तस्यापि पृष्ठदशूरा दुद्रुगुस्ते तुरङ्गमैः वायुवेगैर्मनोवेगैर्भानु साम्पादयो नृपा गृहीत्वा तुरकम् सर्वे बद्ध्वा तम् स्वर्णदामभिः सेनायामन्तरे कृत्वा सङ्गितास्वपुरिम् गीदवादित्रकोषैश्च नादयन्तश्च दुन्दुभीन् चालयन्तश्च पृथिवीम् त्रासयन्तः खलान् रिपून् व्रजन्तम् यादवै सार्धम् तुरा गम् वीक्ष्य नारदः दूतवत्कलहार्थाय प्रयय्यौ चक्रसन्निधम् तस्याग्रे कथयामासवाजिवार्ताम् स विस्तराद श्रुत्वा चक्रस्तु राजेन्द्र हयम् हर्तुम् मनो दधे आय्यौ द्रष्टुम् भूत्वा तिरोहितः अहो विष्णोर्मा यया च सर्वे मुह्यन्ति देवताः कुबेरब्रह्मचक्राद्या भूजनानाम् तु काकधा स गत्वा तत्र वृष्णीनाम् सेनाम् सर्वाम् ददर्शः प्रलयाब्धिसमम् रौद्राम् वृताम् सूरैश्च कोडिभिः यादवा न महासेनामुद्भटाम् वीक्ष्य शङ्गितः ययकृष्णभयाद्राजन्शीक्रम् शक्रोमरवतीम् कृष्णदेवस्य कृपया युद्धस्यां शाम् विसृज्य च अथ सेनानिरुद्धस्य महात्मनश्च गजैरतैर्वैतुरगैर्नरैश्च रजे मको न पृदने स्वर्गे गजा सर्वे पृथक्भूदा पृथक्भूदा रथास्तथा पृथक्भूदास्तुरङ्गाश्च पृथग्भूदा पदादयः अनुजग्मुर्द्वारकां ते कृष्णपोदकाः कृष्णपोदकः जम्बुद्वीपस्य जेतारो लोकद्वयजिगीषवः अग्नेवाकं पुरस्कृत्य वादित्रैर्विविधैरपि गीतनृत्यादिभिराजन् संयुक्तास्ते यदुत्तमाः अनिरुद्धस्तु साम्बाद्यैरिन्द्रनीलादिभिर्नृप चन्द्रहासादिभिर्भुवैः सहस्रैरभिभूषितः साम्बस्यानुमदेनापि चानर्ते सम्प्रविश्यज उद्धवम् रषयामास द्वारकाम् योजनद्वयाद् एवम् प्रणोदिदसोऽपि नत्वा रुक्मवती सुदम् यत्रास्ते शुभ्रसेनस्तु मुनिभिः श्रेष्ठे पिण्डारकक्षेत्रे सभा मण्डपभूषिते वसुदेवादयो यत्र रामकृष्णादयो नृप प्रद्युम्नाद्याश्च बलिनो यज्ञं रक्षन्ति गत्वा नृपसभाम् तत्र यादवेन्द्रम् प्रणम्यज वसुदेवम् बलम् कृष्णम् प्रद्युम्नादीन् यदूत्तमान् सर्वान्नत्वा यथा योग्यम् तेषाम् अग्रे स उद्धव उवाच आकर्तस्तव राजेन्द्र निर्विघ्नेन तुरङ्गमः आकर्ताश्चानि रुद्धाभ्या आकर्ताश्चानि रुद्धाभ्याः कुशल यदुतमा गोविंद कृपया चेन्द्र नील सगता हे मांत सु ज्यादा मंडलेको युद्धे भीषणन समन्वि बिंदुस्ल्च स्वुरा दई सौ उपद्वीपे पञ्चजन्ये बल्वलो निर्जितोऽसुरैः तस्मिन् युद्धे महेशेन ह्यनिरुद्धसुनन्दनौ निखतौ चतुष्षाढ्येन यादवांश्चैव मारिताः तत्र गत्वा तस्मात् कृष्णस्य कृपया वयम् सर्वे समागताः निर्जिता कौरव सर्वे भीष्मो ह्यत्र समागतः दृष्ट्वा द्वैधवनेऽस्माभिः पाण्डवा दुःखकर्षिताः व्रजे गोपगणाश्चैव कृष्णविक्षेपविह्वलाः आ बाल्यात् कृष्णभक्तिस्तु चन्द्रः समागतः बहवो भूव आगतास्ते भयात् गर्ग उवाच इति कृष्णगुणान् श्रुत्वा क्युद्धवा जादवेश्वरः न किञ्चिदूचे प्रेम्णादुमग्नश्चानन्दसागरे मणिहारं ददौ तस्मै रत्नानि चाम्बराणि च चा शिबिका वारणरथहयादीनुद्धवायसः तद् कृष्णस्तु भगवान् चीक्रमुद्धाय हर्षिदः सख्यात् सार्धं सभायां च चकारपरिरम्भणम् उग्रसेन उवाचाथ गोविन्दमहर्षपुरिदः अनेदं चानिरुद्धं वै गच्छ याद श्रीकृष्ण यादवैः इति श्रीगर्गसंहितायां हयमेदखण्डे उद्धवागमनं नाम त्रिपञ्चाशत्तमोऽध्यायः अध्यायम् फिफ्टि फोर् गर्ग उवाच अथोग्रसेन नृपा नृप ने नेतुम् विनिर्ययौ सर्वे समागदं समागतम् गजैरथैतुरङ्गैष्ठ शिपिकाभिर शिपिकाभिर्यदूतमः श्रीकृष्णबलदेवाद्या प्रद्युम्नाद्या नृपेश्वर उद्धवाद्या गर्जस्ताश्च हयं द्रष्टुं विनिर्गताः देवकी प्रमुख नार्यो माधर कृष्णरामयोः शिपिकाभिर्विचित्राभिर्निर्ययोर्नृपसत्तमा रुक्मिणी सत्यभामाद्या नार्यकृष्णस्य एव हि शिबिकाभिर्ययि भेर्ययु सहस्राणि जषोडश राजानाम् मौतिकानां च कुसुमानां नृपेश्वर वर्षाङ्कर्तुम् ययि शीघ्रम् गजस्ताश्च कुमारिकाः कलशैर्जलहारिण्यो निर्ययोर्जलपूरितैः सौभाग्यवत्यो ब्राह्मण्यो गन्धपुष्पाक्षताङ्कुरैः वाराङ्गनाश्चरूपिण्यो नृत्यं कर्तुं विनिर्ययुः शोभिता सर्वशृङ्काराय कायन्त्यश्च गुणान् हरेः शङ्कुदुन्दुभिनादेन ब्रह्मघोषेण यादवाः वाचरणेन्द्रं पुरस्कृत्य गर्गाद्यैर्मुनिभिर्युधाः विलोकयन्तस्वपुरीं पदाकाभिश्च मण्डिताम् शिक्रमार्गं गन्धजलैरम्भातोरणशोभितं प्रदीप्ता मणिदीपैश्च विधानैर्विविधैरविदिव्यनायीनरैर्युक्तं सुवर्णसवर्णैर्वृदां पक्षिणां कलशब्देन धूम्रेण गुरुगन्धिना शोभितां कृष्णनगरीं शक्र मरावलीम् युद्धम् विलोकयम् तस्ते प्राप्ता शीघ्रम् च तत्रानिरुद्धसहयो वर्तते सेनया वृतः तान् दृष्ट्वा पुरस्कृत्य हयम् चाग्रे नृभैः सार्धम् समाय यौ पूर्वम् बलम् तथा श्रीकृष्णम् पितरम् चैव तेभ्य चाश्वम् ददौ पुनः शुभाशिशो ददुस्ते दुःप्रीदा त्वया साधुकृतम् वत्स सर्वान् जित्वा रिपून्नृपान् आनयामासतुरकम् मध्ये संवत्सरस्य इति तद्वचनम् श्रुत्वा निरुद्धप्राहमा पुनः कृपया तव विप्रेन्द्रमार्गे मार्गे मृधे मृधे बहुभिः शत्रुभिश्चाश्वो गृहीतोऽपि विमोचितः गुरोरनुग्रहेणैव सुखी भवति मानवः तस्माद्गुरुम् च विधिना यथा शप्रिया प्रपूजयेद भूपास्ततः समागत्य समीपे रामकृष्णयोः नेम पृथ पृथ सर्वे प्रीध प्रेम सर्वान् दृष्ट्वा नदान् श्रीकृष्णो बलसंयुधः चन्द्रहासं च गाङ्गेयं बिन्दुं चैवानुशाल्वकम् एमाङ्गदम् चन्द्रनीलम् परिरेभे हरिर्मुदा कृष्णभक्तात् परकोऽपि तस्मद्भूमौ न विद्यते ततो निरुद्धं जयिनं समागदं। गजे समारोप्य कुशस्थलीं ययौ शौरी प्रसन्न किल सर्व यादव पुत्रौत्रे मुदिता नृपेशर पुष्पाणाम् मकरन्तानाम् चक्रसुरस्त्रियः राजानाम् मौतिकानाम् च कुञ्जरस्ता कुमारिकाः नृत्यवादित्रगीतेन ब्रह्मघोषेण शोभिताः पश्यन्त सिकृतमार्गाम् ताम् पुरीम् पिण्डारकम् ययुः यज्ञस्थलम् ते ददृश्यो धूम्रेण धृतगन्धिना व्याप्तम् ब्राह्मणघोषेण ह्यसि पत्रव्रते न च निरीक्ष्य तत्र भूपाल मुग्रसेनम् यदुत्तमम् पुरन्तरसमम् दान्तम् पुष्टम् गौरम् स्फुरत्प्रभम् कुशासनस्तम् सुभगम् भूषणम् संयुक्तम् मृग शृङ्गेण मृग चर्मणि भार्यया कुर्वन्तम् भोजनम् चाट्नेर्घृतगन्धाक्षतादिभिः मण्डपे मुनिभिर्युक्तम् धूम्रेणार्णलोचनम् तम् तत श्रीयदुराजस्तु सर्वान् दृष्ट्वा नृपान् यदून् सर्वेषामादधे मानम् यथा योग्यम् यथा बलम् अनिरुद्धस्ततो नत्वा भूत्वा कृताञ्जलिः सर्वेषाम् शृण्वताम् प्राहजम् नृपम् अनिरुद्ध उवाच यनं पश्य महाराज इन्द्रनीलं नृगोत्तमं पादयोपदितं प्रेम्णा समुद्धापयदे भवद हेमाङ्गदं चानुशाल्यं बिन्दुं श्रीचन्द्रभासखं यनं देवव्रतं पश्य चा गदं तव सन्निधौ मम रक्षाकरं पश्य साम्बं जाम्बवदी सुधम् रुद्रेण निगतम् पश्य कृष्णेन जीवितम् तदा रुद्रपदम् पश्य जीवितम् च सुनन्दनम् अन्यान् पश्य यदुन् सर्वान् कृष्णस्य कृपया गदान् गृहाण यज्ञतुरगम् निर्विघ्नेन समागतम् दत्तम् युद्धाय नित्रम् शं तम् गृहाण इति तद्वाक्यमाकर्ण्य यदुराजप्रभर्षितः संस्वाख्यतम् नृपांश्चैव यथा योग्याशिषम् ददौ पूजयित्वा नृपान् सर्वांस्ततो भीष्ममुवाचः ये हि भीष्म मया गुरुत्वं गुरुत्वम् परिरम्भणम् युद्ध कुतुवातम् समुद्धाय परिरेभे यदुत्तमः तदस्ते दानमानाभ्यां पूजिता यादवो नृपाः निवासम् चक्रिरे प्रीता द्वारकायाम् गृहे गृहे ततो दृष्ट्वा निरुद्धम् वै देवकीरोहिणी चैव रुक्मिण्याद्या स्त्रियो वराः अन्याश्च रुक्मवत्याद्या परिष्वज्यमुदं ययुः सुरूपारोचना ह्यूषा राजनेता मुदम् गदाः साम्बश्वाकाम् तदश्रुत्वा सुयोधनसुधा भृशं मुदं जयौ स्वनेत्राभ्यां मुञ्चन्ती हर्षजं जलं बभूव मङ्गलं राजन् द्वारकायां गृहे गृहे ससैन्ये नृपशार्दू लक्ष्यनिरुद्धे समागदे इति श्रीगर्गसंहितायां हयमेधखण्डे तुरगागमनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ओ अध्यायम् फिफ्टिफैव् यज्ञार्थम् गोमदीजलानयनम् नारदद्वारा गोपीगणमध्ये कलहप्रवर्तनस्य चेष्टाः भगवदस्वरूपदर्शनम् गर्ग उवाच अथ वै मण्डपे रम्ये द्वारैरष्टभिरन्विते पदत्पदाके कुण्डाढ्ये याच्ञिकैरष्टकैर्युदे पलाश्च जैर्बिल्वजैश्च तथा श्लेष्मादकैर्नृप वेदिकाभिस्तथा यूपैश्च शालैरपि भूषिते सृक्चर्मकुशमुसलो लोक द्यैर्विशाम्पदे अन्यैः सम्भृतसंभारैर्नानावस्तुभिरन्विते उग्रसेनस्तु राजर्षिर्षिर्भिर्वेदपारगैः यादवैश्चामरावत्यां रे जे शक्र इवामरैः आहूता कृष्णचन्द्रेण गोपानन्दादयस्ततः वृषभानुवराद्यांश्च श्रीदामाद्याः समाययुः यशोमधीराचिका च ह्यन्याः सर्वा व्रजस्त्रियः द्वारकामाय युप्रीदा शिपिकाभि रथैरपि आहूदो धृतराष्ट्रस्तु कौरवैश्च सुदैर्युधः आजगामकुशस्थल्याम् नृपाश्चान्ये समागताः युधिष्ठिरो भीमसेनश्चार्जुनो न कुलस्तथा सह देवो वनादेह्या दे जग्मुर्भार्यया सह श्रीकृष्णेन समाहूदा प्रेषयित्वा च नारदम् शक्रादयोष्टौ दिक्पाला वसवो रवयस्तथा यज्ञे सनत्कुमाराद्या रुद्राश्चैकादशापिः मरुद्गणाश्च वेदाला गन्धर्वा विश्वे देवाश्च साध्याश्च सर्वे विद्याधरास्तथा देवाश्च देवपत्न्यश्च गन्धर्वोप्सरस्वस्तथा आजग्मुर्द्वारकाम्राजन् कृष्णदर्शनकाङ्क्षया कैलासश्च समाहोदसर्वमङ्गलया शिवः सुदलाद्दैत्य वृन्दैश्च प्रह्लादो बलिरेव विभीषणो भीषणश्च मयो बल्ल्वल एव च जाम्बवादंष्ट्रिभिः सार्धम् हनुमान्वानरैर्युदः तथा सर्पैश्च वा सुखिः धेनुभिः सहिधारा जन्धेनुरूपधराधरा मेरुःशलै मेरुःशैलैर्हिमगिरिर्वडः रत्नाकरा रत्नयुधा नदीभिस्वर्धुनी तथा तीर्थैः सर्वैश्च राजेन्द्र तीर्थ राजश्च पुष्करः ये ते सर्वे समाहूदा आ जग्मुर्मुदिधाक्रदौ तद कृष्णेन चाहूदा व्रजभूमिः समागदा कृष्णयज्ञोत्सवम् द्रष्टुम् यमुना शमनस्व सा सर्वान् दृष्ट्वा गदान्प्रीदो वासयामास चाहुकः शिबिरेषु मन्दिरेषु विमानेषु वनेषु च अधाचार्यकृतो व्यासो भगदाल्भ्यो विधिर्मया ऋत्विजश्च कृता दिव्या ये अध यज्ञे निरुद्धस्तु श्रीकृष्णस्य च या नृप विधेर्विधोश्च स्वस्यापि कृत्वा रूपत्रयं बभौ दृष्ट्वा लीलाम् कार्ष्णिजस्य देवाश्च यदवो नृपाः विस्मिदा कदयामासुकर्णे कर्णे परस्परं व्यासक् प्रत्याहराजानम् शृणु यादवसत्तमा उपविष्टा नृपाविप्रा यथास्थाने विभागशः चतुष्षष्टिर्दम्पतीनाम् यान्दुवै गोमतीतटे आहर्तिम् आहर्तुम् सलिलं तस्या मया दिष्ट ष्टं यथोचितम् आदित्या कश्यपश्चैव वसिष्ठो रुन्धदीयुधः द्रोणाचार्यस्तु कृपया चह्यदिश्चैवा न सूयया रुक्मिण्या कृष्णचन्द्रस्तु रेवत्या राम एव च मायावत्या जप्रद्युम्न उषया कार्ष्णिजस्तथा सुभद्रयार्जुनश्चैव शम्बो लक्ष्मणया तथा तथा हेमाङ्गदाद्ययाश्च स्वस्वभार्यया श्रीगर्ग उवाच एवम् देव्यासवचनात्सपत्नीका द्विजा नृपः आनेतुं गोमगीतोऽयम् प्रयुर्बद्धपल्लवाः देवकीं रोहिणीं कुञ्जीम् गान्धारीं च यशोमतीं पुरस्कृत्यदुजग्राह कुम्भो भैष्मिया हरिः तथा रामस्तु रेवत्या भूमिपाः सुवर्णरौप्यकलशैः सम्पुष्पैश्च स पल्लवैः रुक्मिण्या सहितं यान्तं कृष्णं दृष्ट्वा समागमे नारदकलकम् कर्तुम सत्यभामा गृहं यय्यौ दृष्ट्वा चैकाम् हरेर्भार्याम् सम्पृष्टः स तया ब्रवीद नारद उवाच आदरम् सदनेनास्ति सत्राजिदसुधे तव गदकृष्णस्तु रुक्मिण्या चाकर्तुम् गोमदीजलम् बहुभ्यचिदात्वम् तु पारिजातकहारिणि कृष्णसङ्कल्पकरणि मणियुक्ता च गरुडोपरि गामिनीम् विहाय भैष्म्या श्रीकृष्णशोभां द्रष्टुं जगामहा यस्या पुत्रश्च प्रद्युम्नो यस्य पौत्रो निरुद्धकः सा दर्शयदिभो मादर्वार्तां मानं च गौरवं गर्ग उवाच इति श्रुत्वा प्राणनाथम् रुक्मिण्या सहितम् गदम् रुरोददुःखित सत्यभामा रुषान्विदा तदैव कृष्णो भगवान् ज्ञात्वा नारदचेष्टितम् सत्यभामा गृहम् शीघ्रम् रूपेणैकेन चा गदम् गत्वा प्रत्याहवचनम् सर्वज्ञाधारमेश्वरः न गदोऽहम् समाजे वै रुक्मिण्या सहितप्रिये आगदो भोजनम् कर्तुम् गदो, भो गदो रामश्च भार्यया इति तद्वाक्यमाकर्ण्य सत्यभामा मुदं गदा भीदो नारद उद्धाय गेहम् चान्यम् जगामः गत्वा जाम्बवती गेहम् तस्याग्रे सर्वमब्रवीद श्रुत्वा भसन्ती सा प्राह मृषामा वदहे मुने करो दिशयनं गेहे श्रीनाधो भोजनान्तरे इति श्रुत्वा शङ्कितस्तुत्वरम् निर्गत्य नारदः मित्रविन्दागृहे गत्वा प्रत्यवाच विलोकयन् नारद उवाच न गदासि नृपस्थानम् मादर्गे हेष्टिदासि किम् आहर्तुम् गोमदीतोऽयम् प्रयादि यत्र माधवः भैष्मीं सत्यां जाम् भवतीं सहनेष्यदि तत्र वै मित्रविन्दोवाच केशवस्य प्रिया सर्वा गन्धास्सौ याम् सानजीवदि कृष्णस्तु पौत्रम् लालयदि गृहे तदो मुनिः समुद्धाय सर्वाणि मन्दिराणि च बभ्रामकृष्णभार्याणाम् स कृष्णानीत्यमन्यत पुनर्विचार्य देवर्षिर्गोपीनाम् मन्दिराणि च प्रयय्यौ कथितुम् मानद तत्र दीव्यमक्षाश्च तत्र दीव्यमक्षाश्च राधयानन्दनन्दनम् गोपीभिः सहितम् वीक्ष्य ऋषिर्गन्तुम् मनो दधे तदैव कृष्ण उद्धाय गृहीत्वा पाणिना मुनिम् तत्रैव स्थापयामास पूजयित्वा यथा विधि श्रीकृष्ण उवाच किम् करिष्यसि विप्रेन्द्र वृद्धाभ्रमसि मोहिदः गेहे गेहे स्वपत्नीनाम् मया त्वम् तु मया धृतानि रूपाणि त्वद्भयादृशि सत्तम नाहम् दास्ये दमं तुभ्यं विप्रत्वात् प्रार्थयाम्यहम् सर्वेषाम् चैव देवोऽहम् मम देवाश्च ब्राह्मणाः ये दृह्यन्ति द्विजामूढा सन्ति ते मम शत्रवः ये पूजयन्ति विप्रांश्च मम भावेन भोजनाः ते भुञ्जन्ति सुखम् चात्र ह्यन्ते यास्यन्ति तत्पदम् मायया मम पुर्याम् त्वम् मोहितश्चापि माकिदः सर्वे मुह्यन्ति देवर्षे ब्रह्मरुद्रादयः सुराः इति तद्वाक्यमाकर्ण्य संस्तुतः स महामुनिः आययौ मण्डपे तूष्णीम् भूत्वा विविधैरपि नारीणां चैव वृन्देण गायन्दीनां हरेर्यशः वलयानां नूपुराणां शब्दोऽभून्मधुरध्वनिः पूजयित्वा जलसुरान्व्यासः सार्धं मया कलशम् तोयसंयुक्तमनसूयाकरे ददौ ततश्च जगृहु कुम्भान् रेवत्याद्याश्च योषितः नोद्धिदा कलशा सर्वे कोमलैश्च करैरपि धारयन्ति कथम् कुम्भं पुष्पभारेण पीडिताः ततश्च जहसूराज्ञो नृपाणाम् च परस्परम् कथं यामो यत्नवाडमित्योजुकलशैर्विना रुक्मिण्याद्या स्त्रियसर्वास्ता ऊचुर्मनः सा हरिम् हे श्रीकृष्णजगन्नाथभक्तकष्टविनशनसबलस्त्वम् चक्रधारी ह्यस्मान् पालय सङ्कटे एवम् ब्रुवन्द्यो जगृहुः सकलान् भारवर्जिदान स्वे स्वे शिरसि सन्धाय संयुक्दायिर्मणिमौतिकैः यज्ञवाडम् समाजग्मुर्नार्यशीघ्रम् सभर्तृकाः यत्र भैर्यश्च सङ्घाद्या वाद्यन्ते पणवादयः आनीय गोमदीतोयम् प्रापितस्तत्र ते नृप श्यामकर्णेन सहिता यत्र वै यादवेश्वरः इति श्रीगर्गसंहितायाम् हयमेदखण्डे गोमदीजलानयनम् नाम पञ्चपञ्चाशत्तमोऽध्यायः ओ अध्यायम् फिफ्टिसिक्स् गर्ग उवाच उग्रसेनस्य यज्ञे वै अयमेधे महात्मनः तस्याः सन् परिचर्यायाम् बान्धवाः प्रेमबन्धनाः यदुरान कर्मसु यदुरान्नानाकर्मसु बान्धवान् भीमम् महानसाध्यक्षम् धर्मम् धर्मस्य पालने स्व शुश्रूषणे सदाम् विष्णुम् नकुलं द्रव्यसाधने पूजने सहदेवम् च धनाध्यक्षम् सुयोधनम् दाने च दानिनम् कर्णम् द्रौपदीम् परवेषणे रक्षायाम् कृष्णपुत्रान्वै ष्यष्ठादशमहारथान् ययुधानम् विकर्णम् च हृदिकम् विदुरम् तथा अक्रूरमुद्धवम् चैव नानाकर्मसुभोपदिः कृत्वा प्रत्याह श्रीकृष्णम् देवत्वम् हि करि देवत्वम् किम् करिष्यसि श्रुत्वा कृष्ण उवाचाधब्राह्मणानाम् करोम्यहम् पादप्रक्षालनं राजन्निन्द्रप्रस्थे कृतं मया इति श्रुत्वा च ब्रह्माद्या जहः गर्ग उवाच इत्युक्त्वा भगवान् साक्षादृषीणाम् च तपस्विनाम् पादप्रक्षालनम् कृत्वा स्थापयामास ता नृभ आसनेषु उपविष्टास्ते वासांसि परिधायजा तिलकैर्द्वादशैर्युक्दा दिव्याभरणभूषिताः नानामदानामालाभिर्युक्दा कर्पूरवीडकान् भुक्त्वा ते रेजिरे यज्ञे देवा इव महीसुराः भिक्षवश्च विरक्ताश्च बुभुक्षिताः कुर्वन्ति याजनाम् सर्वे दूरदेशात् समागदाः, ददस्वान्नम् ददस्वान्नम् ददस्वान्नम् नरेश्वर उपानहस्तपात्राणि वस्त्राणि कम्बलानि च उग्रसेनस्य यत्ने वै मुनिवृन्दैर्नृपैर्वृदे तेषां तां करुणां वाचं निशम्य यदु सप्तमः सुवर्णं रजतं चैव वस्त्राणि भाजनानि च गजाश्वरथ गोच्छत्रशिबिकादीनिहर्षितः येषां येषां प्रियं यद्वै तेभ्यस्तेभ्यो ददौ नृपः उग्रसेनकृतस्नान प्रदुकर्मणि दीक्षितः असिपत्रव्रदध्रो रुजिमत्या बभौ तदः विप्राविंशतिसाहस्रा वेदशास्त्रविशारदाः व्यासगर्गादयश्चैव कारयन्दिप्रदुत्तमम् हस्तिशुण्ढा समाधारा पतातः कृतस्य च नृपश्रेष्ठ मुनिभिर्ब्रह्मवादिभिः तद्यज्ञे कृष्णकृपया ह्यनलो जीर्णतां ययौ तदप्रोवाजवह्निस्तु सर्वेषाम् शृण्वताम् नृपम् प्रसन्नोऽहम् प्रसन्नोऽहम् पशुं मम निशम्य चाग्निर्वचनं सभायां श्रीयादवेन्द्रो मुनिभिः समं च बद्धं तुरङ्गं तपनीयूपे हिरण्यदाम्ना च तमाभूपः उग्रसेन उवाच अग्नेर्वाक्यं शृणुह शुद्धं त्वां च पशुं <ISCALENCIO> यिष्यति वह्निस्तु कृतैस्तृप्तोऽपि चाध्वरे नृपस्य वचनं श्रुत्वा श्याम कर्णस्तुरङ्गमः कृष्णं विलोकयन् प्रीदः कम्बयामास स्वाननम् तदोहयमदं ज्ञात्वा वेदव्याससमं मया मण्डपे मुनिभिर्युक्ते श्री कृष्णाद्यैर्नृपैर्वृते ब्राह्मणैक्षत्रियैर्वैश्यैः शूद्रैर्यज्ञदिदृक्षुभिः स्त्री स्त्रीभिर्युदम् प्रदम् भग्नम् प्रागद्वैपायनो मुनिः व्यास उवाच उत्तिष्ठबलभद्रम् त्वम् करवालम् प्रगृह्य च छिन्दिकम् वाजिनश्चाग्ने प्रीतये ह्यधुना त्वरम् निषदेतुरगे राम हवने च कृते सदि यज्ञावतारकृष्णस्तु प्रसन्नो भवदि गर्ग उवाच एवं व्यासव च श्रुत्वा बलखड्गेन सत्वरम् चिरो हयस्य चिच्छेद तच्चिरो गगनम् व्यय्यौ गत्वार्धम् नृपशार्दूलीनम् तद्रविमण्डले देवदैत्यनरा सर्वे तम् दृष्ट्वा विस्मयम् गदाः हयस्य हृदये शूलं निजपा न हसन् हरिः मकरम् दसमाधारा रामस्तत्र विनिर्गदा ततश्च निर्गदा ज्योतिस्तुरगस्य कलेवराद पश्यताम् चैव सर्वेषाम् विवेशमधुसूदने पश्चाद्भूत्वा च कर्पूर शरीरं पदिदं पशोहो गात्राच्युदा यथा राजन् विभूदि च दृष्ट्वा च समूहमद्भुतम् सभां सुगन्धेन वृताम् च द्वारकाम् व्यासादयस्ते मुनयप्रहर्षिदा ऊचुर्नृपम् वै क्रतु दृष्ट्य दिष्ट्यादे नृपशार्दूल सफलो भूत्कृत्तमः कर्पूरेणापिहवनम् करिष्यामश्च त्वम् गुरु इत्युक्त्वा ऋत्विज सर्वे यज्ञकुण्डे च तत्क्षणाद हि जुहुवुः पूर्वम् यज्ञेश्वराय च यत्र यज्ञेश्वरकृष्णश्च दुर्व्यूहधरः परः रेजे पुत्रैश्च पौत्रैश्च तत्र तस्मिन् यज्ञे महेन्द्राय वज प्रकथितम् मया गृहाणशक्रयज्ञेऽस्मिन् कर्पूरस्याहुदिम् विभो ये हि राज्ञार्पिताम् चैना कलावग्रेहि दुर्लभाम् इति श्रुत्वा च वचनम् शक्रप्रोवाचसस्मिदम् पुनर्गृह्णामि मुनयो धर्मराजक्रदूत्तमे कुलक्षये गजपुरे प्रदत्तामाहुतिं द्विजैः इति श्रुत्वा हरेर्वाक्यं सत्यं मत्वा मुनीश्वराः सर्वान् देवानृपश्रेष्ठह्यध्वरे चाहुधिं ददुः अन्ये केऽपि न जानन्दिवज्रिणा कथितं च स्वाहे अग्नये स्वाहेदिमन्त्रैश्च सर्वानेवाहुदीर्दधुः कर्पूरहवनेनाभिप्रीदम् विश्वम् चराचरम् उग्रसेनस्तु राजा वैनरुणोऽभून्महाध्वरे यज्ञान्ते बभृधस्नानमुग्रसेनो द्विजोत्तमैः कृष्णाद्यैर्यादवैर्भूपैस्तीर्थे पिण्डारके करोत् भार्यया सखिदस्नात्वा वेदोक्तविधिना नृपः धृत्वा क्षौमाम् परं रेजे यज्ञो दक्षिणया यथा देवदुन्दुभयो ने दुर्नरदुन्दुभयस्तदा उग्रसेनो उग्रसेनोपरिसुरा पुष्पवर्षं प्रचिक्रिरे कारयित्वा स्वधापानं प्राशयित्वा यथाक्रमम् सर्वेभ्यश्च पुरोडाशं दत्त्वा शेषमथा सृजत उग्रसेनं च पादित्रैस्तुष्टु बुर्वन्दिनो मुदा ततो नीराजनम् चक्रुर्देवख्याद्याश्च योषितः अलङ्कारश्च रत्नानि वस्त्राणि विविधानि नीर जनान्ते प्रददौ ताभ्यप्रीदो नृपेश्वरः इति श्रीगर्गसंहितायाम् हयमेधखण्डे यज्ञपूर्तौ नृपस्याभिषेको नाम षट्पञ्चाशत्तमोऽध्यायः ओ अध्यायम् 57 गर्ग उवाच तदकृष्णेन भीमेन प्रार्थयित्वा द्विजान्नृपान् भोजयामास यदुराड् भोजनैर्विविधैरपि चष्कुली पायसतण्डुलाभैः संयावकापूप सुसूपकाद्यैः सत्वर्णिकाद्यैस्तु निमन्द्र्यविप्रान् सम्भोजयामास विशेषमन्नम् शिखरिणीकृद पूरसुचक्रिकास् सुपडिनी दधिपूप कल्प शिदाः सुवृदा सुन्दरचन्द्रसुकालिका बडकमोद कपर्पडकैरदाद केचिद्भलाशनास्तत्र शुष्कपर्णाशनास्तधा केजिज्जलाशना विप्रा केजिदुर्वार साशनाः जन्मतश्च तपस्विनः भोजनानां च नामानि तेन जानन्दिविस्मिताः भक्तं च मेनिरे के जिन्मालत्या कुसुमानि च मोदकश्च द्विजा के जेदुदुम्बरफलानि च पायस्संफेर्णिकां दृष्ट्वा चन्द्रबिम्बं च मेनिरे पर्पदान्फेणिका दृष्ट्वा पत्राणि किं शुकस्य वै मेनिरेऽर्कफलानीधि दृष्ट्वा च मधुशीर्षकान् प्रलेहिकां लप्सिकां च ऋषयश्चन्दनद्रवं दृष्ट्वा देमिष्टचूर्णं वै बालूकां मुनिसप्तमाः इति मत्वा द्विजा सर्वे बुभुजुर्भोजनानि च केचित्पिबन्ति दुग्धम् तु दु। केजिद्राक्षसं तथा केजिद्राम् केचिदाम्ररसं विप्राक् प्रहसन्ति लुढन्ति वै तदा कृष्णस्तु भगवान् भीमेन प्रहसन्मुदा चकारहास्यं विप्राणाम् संस्थितानां तपस्विनां भोजनानां च नामानि मुनयो वददत्वरं तान् प्रयच्छामि युष्मभ्यं भीमेन सहितोऽप्यहं श्रीकृष्णभीमयोर्वाक्यं निशम्य मुनिसप्तमाः न किञ्चिदूचिर्मुदिदा प्रपश्यन्थः परस्परम् तैलङ्ग कर्नाडक गुर्जराद्या नन्यान् द्विजान् गौडसनाढ्यपादीन् सम्पूज्य सेमाम्बरत्नवृन्दैर्नृपेश्वरो विप्रवरान्ननामः एकलक्षं हयानां च गजानां च सहस्रकम् द्विसहस्रं रथानां च गवां लक्षम् विधानदः शतभारम् सुवर्णानामीदृशीम् दक्षिणाम् नृह उग्रसेनस्तु यज्ञान्ते पूर्वम् ददौ किल मदर्थम् बगला भगदाभ्याय दव्यासाय वै तथा तुरगाणाम् च गजानां शतमेव द्विशतं स्यन्दनानां च धेनूनां च सहस्रकम् विंशद्भारं सुवर्णानामीदृश्यं दक्षिणाम् पुनः निमन्त्रितेभ्यो विप्रेभ्य उग्रसेनो ददौ मुदा गजमेकं रथं गां च स्वर्णभारं च कोटकम् द्वे भारम् रजतं चैव यादवेन्द्रप्रकर्षितः ईदृश्यं दक्षिणां राजन्ब्राह्मणे ब्राह्मणे ददौ महाध्वरे कृष्णपुरी तदा बभव। महीतलेके ह्यमरावधी यथा तदा गदा मागद सूदकादयो। वन्दीजना गायक वारयोषितः तदा नृपद्वारिमहोत्सवो भून् मृदङ्गवीणामुरयष्टिवेणुभिः सुतालशङ्कानकदुन्दुभिस्वनैः सङ्गीतनृत्यादिकवाद्यगीतकैः जग सुकण्ठैर्ननृद्धुः सुतालैः सङ्गीतगीताक्षरसामगीतैः कौसुम्भवस्त्राणि विचालयन्त्यः सङ्गीतनृत्येन परिस्फुरन्त्यः वन्दीजनामागतगायताश्च ये चागदास्तेभ्य उपागदेभ्यः दाधिरणरण्यम् बहुरत्नवृन्दम् तथागता ह्यप्सरसश्च ताभ्यः सूतेभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलम् धनम् ववर्ष कनवद्राजा हयमेधप्रभर्षितः तत्पश्चाद् यादवेन्द्रस्तु शुग्रस्य नो महेश्वरः नियुतं तुरगाणां च सहस्रं हस्तिनां तथा शिपिकानां शतं चैव कुण्डले कटकानि च सुवर्णानां भुवे भूवे ददौ मुदा द्विगुणेन यदून् सर्वान्नन्दादींश्चैव भूपतिः यशोदाद्याश्च गोप्यश्च देवक्याद्या यदुस्त्रियः रुक्मिण्याद्याराधिकाद्यापट्टराज्ञो हरेरपि दिव्याम्बरैरलङ्कारैराज्ञा सर्वाश्च तोषिदाः पुनर्ददौ च गर्गाय जाग्रामशदम् मुदा ससर्गो ब्राह्मणेभ्यश्च प्रददौहि क्रमादृशिः तदसम्पूजयामास कृष्णम् सङ्कर्षणान्वितम् वस्त्रालङ्कारतिलकैस्रग्भिर्नीराजनादिभिः राजन्महाध्वरे समर्थेन त्वया ह्यत्र न दत्तम् किञ्चिदेव हि इति श्रुत्वा नृपप्राहरामेण सहमाधवः यथोक्ताम् दक्षिणाम् शीघ्रम् गृहाण जगदीश्वर इत्युक्त्वा प्रददौ राजा हर्षिधप्रेमविह्वलः फलम् सर्वम् कृष्णकारे राजसूयाश्वमेधयोः तदा जय जय रावोद्वारकायाम् बभूवः सद्यसुराश्च सन्तुष्टा पुष्पवर्षम् प्रचक्रिरे सर्वाश्च देवतास्तुष्टा प्राप्तभागादिवङ्गदाः रक्षो दैत्याग्दंष्टिणश्च कगामर्काभिलेशयाः शैलागावो वृक्षसङ्घानद्यस्तीर्थानि सिन्धवः सन्तुष्टा प्राप्तभाग ये सर्वे स्वं स्वं स्वम् गदाः पूजिता पूजितादानमानाभ्याम् राजानो ये समागताः जग्मुस्वम् स्वं गृहम् सैन्यै कम्पयन्तो महीतलम् सर्वे गोपाश्च नन्दाद्या यस्योदाद्या व्रजस्त्रियः कृष्णेन पूजिता राजन राजन्विरभार्ता व्रजं ययुः एवम् राजा यादवेन्द्रो मनोरथमहार्णवम् दुत्तरं च समुत्तीर्य हरिणासीद्गतव्यधात् इति श्रीगर्गसंहितायाम् खयमेदखण्डे विश्वभोज्यदक्षिणावर्णनं नाम सप्तपञ्चाशत्तमोऽध्यायः ओ अध्यायम् फिफ्टि श्रीगर्ग उवाच ततः सर्वे समाहूदा श्रीकृष्णेन महात्मना वैकुण्ठादाययुशीक्रम् कंसाध्या नवभ्रादरः दृष्ट्वा तानाकदान् सर्वे विस्मयं परमं ययुः ते समागत्य श्रीकृष्णम् बलं प्रद्युम् च अनिरुद्धं च कंसाध्यानेमु सर्वे पृथक् पृथक् ददर्श चोग्रसेनस्तु सुधर्मायां सुदा नृप शक्रसिंहासनस्थो वै रुचिमत्या समन्विदः कंसादीन् स्वसुधान्प्रीतकृष्णा हारांश्च दुर्भुजान् शङ्खचक्रगदापद्मैर् भूषितान् पीतवाससः कृष्णपार्श्वे स्थितान् पुत्रा नाह्वयामास भूपतिः तदा कृष्णस्तु भगवान् कंसादीन् प्राकसस्मितः पश्य स्वमादापिधरौ युष्मागम् दर्शनोत्सुखौ गत्वा समीपे हे वीरा यूयं नमदभकृदः इति कृष्णस्य वचनम् कृष्णभृत्या निशम्य च ऊजु प्रकर्षिता सर्वे कङ्गण्यग्रोधकादयः कंसाध्या ऊजुः ईदृश्यापितरोऽस्माकमीदृश्यो मादरश्च वै बहवश्च भवन्नाथभ्रमदान्तवमायया हरिः पितादु जीवस्य श्रुतिरेषासनातनी तस्माच्चान्यम् न पश्यामो वयम् त्वन्निकटे स्थिता पुरा विलोकितस्त्वम् वै सङ्ग्रामे बलसंयुतः पश्चाञ्जादौ द्वारकायाम् न दृष्टौ कार्ष्णी काष्णी तस्माद् द्रष्टुम् च दुर्व्यूकम् वयमत्र समागताः श्रीकृष्णो बलभद्रश्च श्रीप्रद्युम्न उषापदिः परिपूर्णतमा ये दे ह्यो स्माभिर्विलोकिताः केन पूर्वेण पुण्येन दृष्टो यो दुर्लभः परिपूर्णश्च चतुर्व्यूहो न जानीमो वयम् किल हे हे कृष्ण हे प्रद्युम्न उषापदे मूढानां नः कुबुद्धीनामपराधं क्षमस्व च गच्छ गोविन्दवैकुण्ठं शून्यम् ते धामसुन्दरम् सुन्दरं। त्वया द्वारकादो वैकुण्ठाश्च कृताधिका भेर आदित्य गौरी यदर्चितं ब्रह्मशीशवाह्निभिरादित्यगौरी शमरुद्यमादिभिः पौलस्त्यतारेश जलेशपूजितं पादारविन्दं सतदम् भजामहे मुनीन्द्रलक्ष्मीसुरभक्तसात्वतैः सुपूजितं चन्दनगन्धदूपकैः जाक्षतैश्चाङ्गुरपूगजर्विदम् पादारविन्दं सददं भजामहे गर्ग उवाच इत्युक्त्वा तेजकं साध्या वैकुण्ठं प्रययोर्नृप सर्वेषां पश्यताम् राजा विस्मितो भूत्सभार्यया यदि श्रीगर्गसंहितायाम् हयमेदखण्डे कंसादिदर्शनं नामाष्टपञ्चाशत्तमोऽध्यायः ओ